सर्गः एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः अब्रवीत् प्राञ्जलिर्वाक्यम् बाष्पगद्गदः न जाने तस्य सर्वथा पापरक्षसः सामर्थ्यं विक्रमं वापि दौष्कुले यस्य सत्यं कुलम् सत्यम् तु प्रतिजानावि त्यजशोकमरिन्दमा करिष्यामि तथा यत्रम् यथा प्राप्स्यसि मैथिली रावणम् सगणम् हत्वा परितोष्यात्मपौरुषम् तथा स्मि कर्ता न चिराद्यथा प्रीतो भविष्यसि अलम् वैक्लव्यमालम्ब्यधैर्यमात्मगतम् स्मर त्वद्विधानान्न सदृशमीदृशम् बुद्धिलाघवम् मयापि व्यसनम् प्राप्तम् भार्या विरहजम् नाहमेवम् हि शोचामि धैर्यम् न परित्यजे नाहम् तामनुशोचामि प्राकृतो वा नरोऽपि सन् महात्मा च विनीतश्च किम् पुनर्धृतिमान् महान् बाष्पमापतितम् धैर्यान् निग्रहीतुम् त्वमर्हसि मर्यादाम् सत्त्वयुक्तानाम् धृतिम् नोत्सृष्टुमर्हसि व्यसने वार्थकृच्छ्रे वा विमृशंश्च स्वया बुद्ध्या धृतिमान्नावसीदति बालिशस्तु नरो नित्यम् वैक्लव्यम् योनुवर्तते समज्जत्यवशः शोके भारा क्रान्ते वनौर्जले एषोऽजलिर्मया बद्धः प्रणया त्वाम् प्रसादये पौरुषम् श्रयशोकस्य नान्तरम् ये शोकमनुवर्तन्ते न विद्यते सुखम् तेजश्च क्षीयते तेषाम् न त्वम् शोचितुमर्हसि शोकेनाभिप्रपन्नस्य जीविते चापि संशयः स शोकम् त्यज राजेन्द्रधैर्यमाश्रय केवलम् हितम् वयस्य भावेन ब्रूमिनोपदिशामि ते वयस्य ताम् पूजयन्मे नत्वं त्वम् शोचितुमर्हसि मधुरम् सुग्रीवेण स मुखमश्वपरिक्लिन्नम् वस्त्रान्तेन प्रमार्जयत् प्रकृतिस्थस्तु काकुत्स्थः सुग्रीवचनात् प्रभुः सम्परिष्वज्य सुग्रीवमिदम् वचनमब्रवीत् कर्तव्यम् यद्वयस्येन स्निग्धेन च हितेन च अनुरूपम् च युक्तम् च कृतम् सुग्रीव तत्त्वया एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे दुर्लभो बंधुरस्म कालेशेष किंतु यो मैथिल्याणे राक्षस से रौद्र सेवण से दुरात्मल मैं अनुष्ठेये नदुच्यता वर्षाश्व सुक्षेत्रे संपद मदंवाक्यम समी तत्त्वया हरि शार्दूलतत्त्वमित्युपधार्यता अनृतम् नोक्तपूर्वम् मे न च वक्ष्ये कदाचन एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम् ततः प्रहृष्टः स्वग्रीवो वानरैः सचिवैः सह राघवस्य वच श्रुत्वा प्रतिज्ञातम् विशेषतः एवमेकान्तसम्पृक्तौ ततस्तौ नर उभावन्योन्यसदृशम् सुखम् दुःखमभाषता महानुभावस्य वचो निशम्य हरिर्नृपाणामधिपश्य तस्य कृतम् समे ने हरिवीरमुख्यस्तदा च कार्यम् हृदयेन विद्वान् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धा काण्डे